कठोपनिषत् शान्तिपाठं सह न ववतु सहनौ भुनक्तु सह वीर्यङ्करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्तिशान्तिश्शान्तिः अधः प्रथमोऽध्यायः प्रथमावली पुशन् हवै वै वाजश्रवसः सर्ववेदसन्दधौ तस्यह नाचिकेदा नामपुत्र पुत्र आस तगं हकुमारगं सन्दन् दक्षिणा सुनीयमाना सुश्रद्धाविवेश सोमन्यत पीतोदघा जग्धतृणा दुग्धदोहा निरिन्द्रियाः अनन्दानामदे लोकास्तान् स गच्छदिता दद सहोवाच पितरन्तदकस्मै मां दास्यसीदि द्वितीयं तृतीयन्त गुंहोवाच मृत्यवेत्त्वा ददामीति बहूनामेमि प्रथमो बहूनामेमि मध्यमः कृस्विद्यमस्य कर्तव्ययन्मयाद्य करिष्यति अनुपश्य यथा पूर्वे प्रतिपश्य तथा परे सस्यमिव पच्यदे सस्यमिवाजायते पुनः वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् तस्यैता गंशान्तिं कुर्वन्ति हर वै वस्वतोदकम् आशाप्रतीक्षे सङ्कतघुं सूनृताञ्चेष्टापूर्ते सर्वान् यदद्वृङ्करे पुरुषस्याल्पमेकसो यस्या नश्नन् वसति ब्राह्मणो गृहे तिस्रो रात्रिर्यदवात्सिर्गृहे मे नश्नन् ब्रह्मन्नदिर्नमस्यः नमस्तेस्तु ब्रह्मन् स्वस्ति मेऽस्तु तस्मात् प्रदितृन्वरान्वृणीष्व शान्तः सङ्कल्पसुमना यथा स्याद्विदमन्योर्गौतमो माभिमृत्यो त्वत्प्रसृष्टं माभिवदेत्प्रदीतयेदत्रयाणां प्रथमं वरं यथा पुरस्ताद्भविदा प्रदीद औद्दालकिरारुणेर्मत्प्रसृष्टः सुखगं रात्रिशयिताविदमन्युस्त्वान् ददृशिवान्मृत्युमुखात् प्रमुक्तं स्वर्गे लोकेन भयं किञ्च नास्ति न तत्र त्वन्न जरया विभेति। उभे तीर्त्वा शनायापिपाशे शोकातिगो मोतते स्वर्गलोके सत्त्वमग्निगं स्वर्गमध्ये श्रीमृत्यो प्रब्रूहि खगं श्रद्धधानाय मह्यं स्वर्गलोका अमृतत्वं भजन्तये दद्वितीयेन वृणेवरेण प्रदेब्रवीमि तदुमे निबोधस्वर्ग्यमग्निन्नचिकेदः प्रजानन् अनन्तलोकाप्तिमधोप्रतिष्ठा विद्धित्वमेदन्निहिदङ्गुहायां लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा स चापि तत्प्रत्यवदयोक्रमधास्य मृत्युः पुनरेवाहतुष्टः तमब्रवीत्प्रीयमाणो महात्मा वरन्तवेहाद्य ददामि भूयः तवैव नाम्ना भवितायमग्नेशृङ्गाञ्चे मामनेकरूपां गृहाण त्रिणाचिकेतस्त्रिभिरेत्य सन्धिन्त्रिकर्मकृतरधि जन्ममृत्यु ब्रह्मा जज्ञन्देवमीढ्यं विदित्वा निचाह्ये मागुं शान्तिमत्यन्तमेति कृणाचिकेतस्त्रयमेतद्विदित्वाय एवं विद्वागुंश्चिनुदे नाचिकेतं समृत्युपाशान्पुरदः प्रणोद्यशोकातिको मोददे स्वर्गलोके येष तेऽग्नेर्नचिकेदस्वर्ग्यो यमवृणीधा वरेण येदमग्निं तवैव प्रवक्ष्यन्ति जनासस्तृदीयं वरन्नचिकेतो वृणीष्व हेयं प्रेदे विचिकित्सा मनुष्ये स्थित्येके नायमस्तीति चैके ये तद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस् तृतीयः देवैरत्रापि विचिकित्सितं पुराणकिसुविज्ञेयमनुरेषधर्मः अन्यं वरन्नचिकेदो वृणीष्व मामोपरोत्सी रदिमा देवैरत्रापि विचिकित्सितं किल त्वञ्च मृत्यो यन्न सुविज्ञेयमात्रवक््रा चास्यत्वादृगन्यो न नलभ्यो नान्यो वरस्तुल्य एतस्य कश्चित् शदायुषः पुत्रपौत्रान् वृणीष्व हस्तिहिरण्यमश्वान् भूमेर्महदाय तनं वृणीष्व जीवशरदो यावदिच्छसि एतत्तुल्यै यदि मन्यसे वरं वृणीष्व वित्तञ्चिरज्जीविकां च महाभूमौ कामानान्त्वा कामभाजं करोमि ये ये कामा दुर्लभामर्त्यलोके सर्वान् कामागश्चन्तदः प्रार्थयस्व इमा रामा शरदासदुर्यान् मनुष्यैः आभिर्मः परिचारयस्वनचिकेतो मरणं मानुप्राक्षीः स्वोभावामर्त्यस्य यदन्तकैस्तत्सर्वेन्द्रियाणां जरयन्ति तेजः अपि सर्वञ्जीवितमल्पमेव तवैव वाशास्तव वा नृत्यगीते न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्षचेत्वा जीविश्यामो यावधीशिष्यसि त्वं वरस्थु मे वरणीयः स एव अजिर्यदाममृतानामुपेत्य जीर्यन्मर्त्य अभिध्यायन्वर्नरदिप्रमोदानधिदीर्घे जीवितेको रमेत यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्साम्पराये महदिब्रूहिणस्तद् योऽयं वरो गूढमनुप्रविष्टो नान्यन्तस्मान्नचिकेतावृणीते ओ कठोपनिषत् प्रथमोऽध्याये द्वितीया वल्ली ओ अन्यच्छ्रेयोन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषगुं सिनीतः तयो श्रेय आददानस्य साधु भवति हि यदेर्थाद्य श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ सम्परीत्य विविनकृधीरः श्रेयो हि धीरोऽभिप्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाध्वृणीते सत्त्वं प्रियान् प्रियरूपागुश्च कामानभिद्यायन्नचिकेतो ्यस्राक्षीः नैदागुं शृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः दूरमेदे विपरीदे विशोची अविद्याया च विद्येदिज्ञाता विद्याभीप्सिनं नचिकेतसं मन्ये न कामा बहवो लो लुपन्त वर्तमाना स्वयं धीरा पण्डितं मन्यमानाः दन्त्रम्यमाणा परि यन्दिमूढा नीयमाना यथान्ताः न साम्पराय प्रतिभादिबालं प्रमाद्यन्तं वित्तमोहेन मूढम् अयल्लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे श्रवणायापि बहुभिर्यो न लभ्यशृण्वन्तोऽपि बहवो यन्न विद्युः आश्चर्यो वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः ननरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः प्रोक्दे गदिरत् नास्त्यह्यतर्क्यमणुप्रमाणाद् नैषा तर्केणमधिरापणे या प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ यान् त्वमापसत्यधृधिर्भतासित्वा धृङ्नो भूयान्नचिकेदः पृष्ठ जानाम्यहगुं शेवधिरित्यनित्य न स्याद्ध्रुवै प्राप्यते हि ध्रुवं तद् तदो मया नाचिकेतश्चितोऽघ्निरनित्यैर्द्रव्यै प्राप्तवानस्मि नित्यम् कामस्याप्तिं जगदः प्रदिष्ठां क्रतोरानन्द्यमभयस्य पारम् सोमं महदुरुगायं प्रदिष्टान्दिष्ट्वा धृत्या धीरोन्नचिकेतोक्षीः तन्दुदर्शं गूढमनुप्रविष्टं गुहाखिदं गह्वरेष्ठं पुराणम् अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्ष शोकौ जहाधि एतच्छ्रुत्वा संपरिगृह्यमर्त्य प्रवृह्यधर्म्यमणुमेदमाप्य समो ददे मोदनीयगं हि लब्ध्वा विवृतगं सत्मनचिकेतसम्मन्ये अन्यत्र धर्मादन्यत्र धर्मादन्यत्रास्मात् धर्मा कृताकृताद अन्यत्र भूता भव्या च यत्तत्पश्यति तद्वत् सर्वे वेदा यत्पदमामनन्ति तपागंसि सर्वाणि च यद्वदन्ति यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदगं सङ्ग्रहेण ब्रवीम्योमित्येतद् ये दध्येवाक्षरं ब्रह्म एदध्येवाक्षरं परं ये दध्येवाक्षरं ज्ञात्वा यो यदिष्ठदि तस्य तद् एददालम्बनं श्रेष्ठमेददालम्बनं परं एददालम्बनं ज्ञात्वा ब्रह्मलोके महीयते न जायते म्रियदे वा विपश्चिन्नायङ्कुतश्चिन्नबभूव कश्चिद् अजो नित्यशाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे हन्ता चेन्मन्यते हन्दगुं हदश्चेन्मन्ये हदम् उभौ तौ न विचानीदो नायगं हन्ति न हन्यते अणो रणीयान्महदो महीयानात्मस्य जन्तोर्निहितो गुहायां तमक्रदुःपश्यदि दशोको धातुप्रसादान्महिमानमात्मनः आसीनो दूरं व्रजति यादि सर्वतः कष्टं मद मदं देवं मदन्यो ज्ञातुमर्हति अशरीरगुं शरीरेष्वन वस्तेष्वस्थितं महान्तं विभुमात्मानं मत्वा धीरो न शोचति नायमात्मा प्रवचनेन लभ्योनमेधयान न मेधया न बहुनाश्रुतेन यमे वैष वृणुदे आत्मा विवृणुते तनूगुस्वां नाविरदो दुश्चरितान्न शान्तो नासमाहितः मानसो वापि प्रज्ञानेनैनमाप्नुयात् यस्य ब्रह्मचक्षत्रञ्च उभे भवद ओदनः इद्धा वेद यत्र सः ॐ कठोपनिषत् प्रथमोऽध्याये तृतीया वल्ली ओ कृतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्थे छाया तपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च तृणाचिकेताः यस्येदुरीजानामक्षरं ब्रह्म यत्परम् अभयन्ति दीर्षदां पारं नाचिकेदगुंशकेमहि आत्मानगुं रथिनं विद्धिशरीरगुं रथमेव तु बुद्धिन्दुसारथिं विद्धि मनःप्रग्रहमेव च इन्द्रियाणि हयानाहुर्विषयागुस्तेषु गोचरान् आत्मेन्द्रियमनो युक्तं भोक्तेत्याहुर्मनीषिणः यस्त्वविज्ञानवान् भवत्य युक्रेन मनसा सदा तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः यस्तु भवति युक्रेन मनसा सदा तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः यस्व्ञानवाद मनस्क सदा शुचि न स तत्पनोति संसार गु विज्ञानवान्वि स मनस्क सदा शुचि सत्दमानोति यस्मदू न जायते विज्ञानसारधिर्यस्तु मनःप्रग्रहवान्नरः सोऽध्वनः परमाप्नोदि तद्विष्णोः परमं महदः परमव्यक्रमव्यक्तात् पुरुषः परः पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः येष सर्वेषु भूतेषु गूढोत्मान्न प्रकाश्यते दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः यच्छेद्वाङ् मनसि प्राज्ञस्तद्यच्छेत् ज्ञान आत्मनि ज्ञानमात्मनि महदिनि यच्छेत्तद्यच्छेच्छान्त आत्मनि उत्तिष्ठतजाग्रदप्राप्य वरान्निबोधत क्षुरस्य धारानिशिता दुरत्यया दुर्गं पधस्तत्कवयो वदन्ति अशब्दम अव्ययन्त अशब्दमस्पर्शमरूपमव्ययन्तद्धारसन्नित्यमगन्धवच्च यद अनाद्यनन्दं महदः परन्ध्रुवन्निचाह्य तन्मृत्युमुखात् प्रमुच्यते नाचिकेदमुपाख्यानं मृत्युप्रोक्तगुंसनातनम् उक्त्वा श्रुत्वा जमेधावीब्रह्मलोके महीयते य इमं परमं गुह्यं श्रावयेद्ब्रह्मसंसदि प्रयतश्राद्धकाले वा तदानन्द्याय कल्पदे तदानन्द्याय कल्पत इति ओ अधद्वितीयोऽध्यायः प्रथमं वल्ली ओ पराञ्चिकानिव्यतृणत्स्वयं भूस्तस्मात् परां पश्यदिनान्तरात्मन् कश्चिद्वीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् परा च कामाननुयन्ति बालास्ते मृत्योर्यन्ति विततस्य पाशम् अध धीरा अमृतत्वं विदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयन्ते येन रूपं रसङ्गन्धं शब्दान् स्पर्शागुश्च मैथुनान् एतेनैव विजानादि स्वप्नान्दन् जागरितान्दञ्चोभौ एनानुपश्यति महान्दं विभुमात्मानं मत्वा धीरो न शोचति य इमं मध्वदं वेद आत्मानं जीवमन्तिकाद् ईशानं भूद न तदो विजुगुप्सदे द्वै तद् यः पूर्वं तपसो जातमद्भ्यः पूर्वमजायद गुहां प्रविश्य तिष्ठन्दयो भूदेभिर्व्यपश्यद एतद्वै तद् या प्राणेन सम्भवत्यदिदेर्देवता मयि गुहां प्रवेश भूदेजाता तै तद अरण्योर्निहि जादा गर्भ इव सुदो गर्णी दिवे दिव दिवई जागृवद्भि हविस्मद्भिर्मनुष्येरग्नि एतद्वैतद् यदश्रो देदि सूर्योस्त यत्र जगच्छति तन्देवा सर्वे अर्पितास्तदुनात्येदि कश्चन एतद्वैतद् यदेवेह इह नानेव पश्यति मनसैवेदमाप्तव्येहनास्ति किञ्चन मृत्यो स मृत्युं गच्छति य इह नानेव पश्यति अङ्गुष्ठमात्रः पुरुषो ईशानो भूतभव्यस्य न तदो विजुगुप्सदे अङ्गुष्टमात्रः पुरुषो ज्योदिरिवाधूमकः ईशानो भूतभव्यस्य स एवाद्य स उष्वः एतद्वैतद् यथोदगन् दुर्गे पृष्ठं पर्वतेषु विधावति एवन्धर्मान् पृथक् पश्य स्थाने यथोदगम शुद्धे शुद्धमा सिंता यं मुनेद आत्मादि गौतमा ओ्याल ओं पुका दशद्वा रजस्या वक्रचेतस अनुष्ठायनशोचदि विमुक्तश्च विमुच्यते ये दद्वैतद् अगंसशुचिषध्वसुरन्तरिक्षसध्वोदा वेदिषदधिर्दुरोणसद नृषद्वरसहृद सद् व्योम सदब्जाघोजा हृदजा बृहद ऊर्ध्वं प्राणमुन्नत्यपानं प्रत्यगस्यदि मध्ये वामनमासीनं विश्वे देवा उपासते अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः देहाद्विमुच्यमानस्य किमत्र परिशिष्यते ये दद्वै तद् न ना प्राणेन नापानेन ना मर्त्यो जीवति कश्चन इतरेण तु इदं प्रवक्ष्यामि गुह्यं ब्रह्मसनातनं यथा च मरणं प्राप्य आत्मा भवति योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः स्थाणुमन्येऽनुसंयन्ति यथा कर्म यथा श्रुतं य एष सुप्तेषु जागर्तिकामं कामं, कामं पुरुषो निर्मिमाणः तदेव शुक्रन् तद्ब्रह्म तदेवामृतमुच्यते तस्मिल्लोका श्रिता सर्वे तदुनात्येदि कश्चन ये दद्वै तद् अग्नेर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च वायुर्यधैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव एकस्तदा सर्वभूतान्तरात्मारूपं रूपं, रूपं प्रतिरूपो बहिश्च सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः धरात्म लिप्यते लोकदुखन बाह्यो रूपं बहुधा कौति तमात्मस्थ्येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतन्नेतरेषां नित्यो नित्यानाञ्चेतनश्चेतनानामेघो बहुनायो विदधाधिकामान् तमात्मस् तय्ये नु पश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषां तदेतदिति मन्यन्ते निर्देश्यं परमं सुखं कथं नु तद्विजानीयां किमु भादि विभादिवा वा न तत्र सूर्यो भाधि न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः तमेव भान्तमनुभाति सर्वं भासा सर्वमिदं विभाति ओ अधद्वितीयोऽध्याये तृतीयं वल्ली ऊर्ध्वमूलो वाक्षाख एोऽश्वसनातनः तदेव शुक्रन् तद्ब्रह्म तदेवामृदमुच्यते तस्मिल्लोका श्रुधा सर्वे तदुनात्येदि कश्चन ये दद्वैतद् यदिदं किञ्च जगत् सर्वं प्राण एजदि निःसृतं महद्भयं वज्रमुद्यतय्य ये दद्विदुरमृदास्ते भवन्ति भयादस्याग्निस्तप भया तपदी भया सूर्य भयाद्र्च मृत्युर्धावदि पंचमहा इह चेदशकबोधुम प्रशर सेस्रस तत लोकेशु शरीर कलते यदर्शे तथा स्वप्ने तथातृलोकसुपरी वृशे तथा गलोके छाया तब ब्रह्म लोक इंद्रिया पृथगत्पद्यमानानां मत्वा धीरो न शोचति इन्द्रियेभ्यः परं मनो मनसः महानात्मा सत्त्वादधिमहानात्मामहदोव्यक्तमुत्तमम् अव्यक्तात् परः परपुरुषो व्यापको लिङ्ग एव यन् ज्ञात्वा उच्यते जन्दुर त्वं जगच्छति न सन्धृशे तिष्ठदिरूपमस्य न चक्षुषा पश्यदि कश्चनैनम् हृदा मनीषा मनसाभिक्लृप्तो ये दद्विदुरमृतास्ते भवन्ति यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह बुद्धिश्च न विचेष्टदे तामाहुः परमां गतिं तायोगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा अस्तीति ब्रुवदोऽन्यत्र कथं तदुपलभ्यते अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति यदा सर्वे प्रमुच्यन्ते कामाये स्य हृदि अधमर्त्यो मृदो भवत्यत्र ब्रह्मसमश्नुते यदा सर्वे प्रभिद्यन्ते हृदयस्ये स ग्रन्थयः अधमर्त्यो मृदो भवत्येतावध्यनुशासनम् सदंचईका ज हृतय से नाड्यस्ता मूर्धनमतका तयर्धमे विश्वनियात्क्रमणे भविंदी अंगुष्टमात्रपुरुषोरात्मा सदा जन्विष्ट तम स्वाशरा मुञ्जादिवेशी गृहेन्मुञ्जादिवेशीकाण्ठैर्येण तं विद्याचुक्रममृदन्तं विद्याचुक्रममृतमिति मृत्युप्रोक्ता नाचिकेतोधलब्ध्वा विद्या मेधायोगविधिं च कृष्णं ब्रह्मप्राप्तो विरजो भूद्विमृत्युरन्योऽप्येव यो विदध्यात्ममेव ॐ सहना वदु सह नौ भुनक्रु तेजस्विनावधितमस्तु मा विद्विषावहै शान्तिशान्तिश्शान्तिः त्वं परं परमं तेजो मंगलानां च मङ्गलम् अप्रमेयगुणश्चैव मन्त्राणां मन्द्रगो भवान ॐ